अथ चतुस्त्रिंशोऽध्यायः वैशम्पाय न उवाच स गत्वाहास्ति नपुरम् नकुलः समितिम् जयः भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रम् च पाण्डवः सत्कृत्या मन्त्रितास्तेन आचार्य प्रमुखास्ततः प्रयुः प्रीतमनसो यज्ञम् अन्ये च शतशस्तुष्टैर्मनोभिर्भरतर्षभा द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् दिग्भ्यः सर्वे समापेतुः क्षत्रियास्तत्र भारता समुपादाय रत्नानि विविधानि गान्धारराजस्सुबलः शकुनिश्च महाबलः अचलो वृषकश्चैव कर्णश्च राथीनां वरः तथा शल्यश्च बलवान् बालिकश्च महाबलः सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाशलः अश्वत्थामा कृपो द्रोणः सैन्धवश्च प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः स तु सर्वैः सह म्लिच्छैः सागरानुपवासिभिः पर्वतीयाश्च राजानो राजा चैव बृहद्बलः पौण्ड्रको वासुदेवश्च वङ्गःकालिङ्गकस्तथा आकर्षाः कुन्तलाश्चैव मालवाश्चान्ध्रकास्तथा द्राविडाश्चैव राजा काश्मीरकस्तथा कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः बालिकाश्च परे शूरा राजानः सर्वयेव ते विराटस्सह पुत्राभ्यां मावेल्लश्च महाबलः राजानो राजपुत्राश्च नानाजनपदेश्वराः शिशुपालो महावीर्यः सः पुत्रेण आगच्छत्पाण्डवे यस्या यज्ञं समरदुर्मदः रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः गदप्रद्युम्न साम्बाश्च चारुदेष्णश्च वीर्यवान् उल्मुको निषठश्चैव वीरश्चाङ्गावहस्तथा वृष्णयो निखिलाश्चान्ये एते चान्ये च बहवो राजानो मध्यदेशजाः आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुं ददुस्तेषामावसथान् धर्मराजस्य शासनात् बहुभक्ष्यान्वितान् राजन् दीर्घिकावृक्षशोभितान् तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम्